श्री विघ्नेश्वराष्टोत्तरशतनामावलिः ॐ ल्यायगाय नमः ॐ लिघ्नराजाय नमः ॐ गौरीपुत्राय नमः ॐ गणेश्वराय नमः ॐ स्कङ्गाग्रजाय नमः ॐ अजयाय नमः ॐ भूताय नमः ॐ दक्षाय नमः ॐ अध्यक्षाय नमः ॐ द्विजप्रियाय नमः ॐ अग्निगर्भच्छिदे नमः ॐ इन्द्रश्रीप्रदाय नमः नमः ॐ अव्ययाय नमः ॐ सर्वसिप्रदाय नमः ॐ शाय नमः ॐ शिय नमः ॐ सर्वात्मकाय नमः ॐ सृष्टिकर्त्रे नमः ॐ देवाय नमः र्जिताय नमः ॐ शिवाय नमः ॐ शुद्धाय नमः ॐ बुद्धिप्रियाय नमः ॐ शन्ताय नमः ब्रह्मचारिणे नमः ॐ जयानलाय नमः ैमात्रेयाय नमः ॐ निस्तुत्याय नमः ॐ भक्तविघ्नविनाशकाय नमः ॐकदम्ताय नमः ॐ चतुर्वाहवे नमः ॐ चतुराय नमः ॐ शक्तिसंयुताय नमः म्बोदराय नमः ॐ शूर्पकरणाय नमः ॐ हरये नमः ॐ ब्रह्मविदे नमः ॐकालाय नमः ॐ ग्रहपतये नमः ॐ कामिने नमः ूर्यानिलोचनाय नमः ॐ पाशाङ्कुशधराय नमः ॐ चण्डाय नमः ॐ निरञ्जनाय नमः ॐ अकल्मषाय नमः ॐ स्वयंसिद्धाय नमः सिद्धार्चितपदाम्बुजाय नमः ॐ बीजपूरफलासक्ताय नमः ॐ वरदाय नमः ॐ शाश्वताय नमः ॐ कृतिने नमः ॐ ब्रीजप्रियाय नमः ॐ वीतभयाय नमः नमः ॐ जग्रिणे नमः ॐ इक्षुचापधृते नमः ॐ श्रीदाय नमः ॐ अजाय नमःं उत्पलकराय नमः ॐ श्रीपतये नमः ॐ स्त्रीहर्षिताय नमः त्रिभेत्रे नमः ॐ जटिलाय नमः ॐ गृगकल्मशलाचलाय नमः ॐ चन्द्रचूडामणये नमः ॐ गान्दाय नमः ॐ पापहारिणे नमः ॐ स्वाहिलाय नमः ॐ आश्रिताय नमः ॐ श्रीकराय नमः ॐ सौम्याय नमः ॐ भक्तवाञ्छितदायकाय नमः ॐ शान्ताय नमः ॐ कैवल्यसुखदाय नमः ॐ सच्चिदानन्दविग्रहाय नमः ॐ ज्ञानिने नमः ॐ दयायुगाय नमः ॐ दान्ताय नमः ॐ ब्रह्मद्वेषविवर्जिताय नमः ॐ प्रमत्तदैर्यभयदाय नमः ॐ श्रीकण्ठाय नमः ॐ विुधेश्वराय नमः र्चिताय नमः ॐ विहये नमः ॐ नागराजयज्ञोपवीतवते नमः ॐ स्थूलकण्ठाय नमः ॐ स्वयंकर्त्रे नमः ॐ श्यामघोषप्रियाय नमः ॐ परस्मै नमः ं स्थूलतुण्डाय नमः ॐ अग्रण्ये नमः ॐ धीराय नमः ॐ वागेशाय नमः ॐ सिद्धिदायकाय नमः ॐ दूर्वाणिवक्रियाय नमः ॐ अव्यक्तमूर्तये नमः ॐ अद्भुतमूर्तिमते नमः ॐ शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसाय नमः ॐ स्वरावण्यसुधासारजितमन्मथविग्रहाय नमः ॐ समस्तजगदाधाराय नमः ॐ मायिने नमः गवाहनाय नमः ॐ हृष्टाय नमः ॐ तुष्टाय नमः ॐ प्रसन्नात्मने नमः ॐ सर्वसिप्रदायकाय नमः